अहङ्कारी मशकः अदुना देशे सर्वत्र मशकानां पीडा अस्ति ते मशकाः जनानां रक्तं पिबन्तः तेषु रोगं जनयन्ति मानवाः अपि तेषां विनाशार्थं बहून् उपायान् कुर्वन्ति चपेटिकाभिः विषाक्तधूमैः वा बहवः मशकाः तैः मार्यन्ते कदाचित् कश्चित् मशकः एवं चिन्तितवान् ईदृश्यां स्थितौ अहम् कति दिवसान् यावत् जीवितुं शक्यामि कदाचित् कस्यचिच्चपेटिकया विषाक्तधूमेन वा मरणं प्राप्स्यामि अतः जनानां मध्ये वासापेक्षया अरण्यवासः एव वरम् इति एवं विचिन्त्य सः वनम् आगच्छत् ततः सः मशकः वने वसन् वनवासीनां पशूनां रक्तं पीत्वा आनन्देन जीवति परं तस्य खलबुद्धिः कदापि तं न त्यजति विना कारणं सः कस्यचित् व कर्णयोः कस्यचित् नासिकारन्ध्रे वा, नासिका वा प्रविश्य तान् पशून् विचलितान् करोति कोऽपि पशुः तस्य कामपि हानिं कर्तुम् असमर्थः यतः पशूनां समीपे चपेटिका विषाक्तधूमः मशकारिः वा न अतः पशवः तस्य अत्याचारेण अतीव संत्रस्ताः अभवन् अनन्तरं सर्वे पशवः मिलित्वा मशकस्य अत्याचारविषये सिंहः निवेदितवन्तः सिंहः अवदत् अयि पशवः मशकः पशूना सः क्षुद्रकीटः एव तस्य शासनाय अहं किं करिष्यामि भवन्तः गजस्य समीपं गच्छन्तु तं निवेदयन्तु इति पशवः गजं निवेदितवन्तः गजः अवदत् भवतु भवन्तः गच्छन्तु अहं नूनं किमपि करिष्यामि इति एतत् श्रुत्वा पशवः आनन्देन गच्छन्तः परस्परम् अवदन् एषः मशकः नूनं मरिष्यति इति मशकः तत् श्रुत्वा तान् अरे मूर्खाः गजः शरीरेण सबलोऽपि कौशलेन ऊनः अतः सः सर्वदा सिंहात् पराजितः भवति यत्र सिंहः स्वस्य असमर्थता प्रकाशयति तत्र गजः किं कर्तुं शक्नोति अतः मम वचनं शृण्वन्तु भवन्तः मां शरणम् आगच्छन्तु प्रतिदिनं भवत्सु अन्यतमः मम रुधिरापिपासां पूरयतु तदा अहम् अन्यान् न पीडयामि मम उदरपूर्तिः भविष्यति भवतां सुखावस्थानम् अपि भविष्यति इति तत् श्रुत्वा अवदत् भवतु भवान् प्रथमतः गजः स्या कोपात् मुक्तः सन् आगच्छतु ततः वयं भवतः उपदेशं गृहीष्यामः इति मशकः तत् अङ्गीकृत्य ततः गजस्य समीपम् आगच्छत् गजः निर्झरस्य पार्श्वे सुप्तः आसीत् मशकः तस्य कर्णगृहतं प्रविश्य सपदि गजस्य निद्राभङ्गः जातः मशकः तं दृष्टवान् रक्तं च पीतवान् गजः कथमपि मशकं निवारयितुं शक्तः न अभवत् सः विचिञ्चलितः भूत्वा मस्तकं चालयन् बृह्हनम् अकरोत् अत्रान्तरे मशकः तस्य कर्णात् बहिः आगत्य अवदत् गज मम पराक्रमं दृष्टवान् अहम् आकरेण क्षुद्रः अपि भवतः अपि बलीयान् इति गजः तत् अङ्गीकृत्य मौनेन अतिष्ठत् ततः परं पशवः अत् तत्र आगताः तैः पृष्टः गजः स्वस्य अक्षमतां प्रकाशितवान् तदा पशवः मशकम् अवदत् बोहो मशक अस्माभिः ज्ञातं यत् अस्मिन् वने भवान् विलवत्तमः इति अतः वयं भवतः आदेशं स्वीकुर्मः अद्य प्रभृतिः प्रतिदिनम् एकैकः पशुः आगत्य भवते रक्तं दास्यति भवान् अत्रैव लतागोल्पापरिपूर्णे कुञ्जे आनन्देन तिष्ठतु इति भवान् उक्त्वा सर्वे गताः तत्र गमनस्य प्रथमः पर्याय कश्चित् कञ्चपस्य आसीत् सः कच्छपः सावधानेन गत्वा लताकुञ्जस्य पुरतः स्थित्वा अवदत् मशकमहाशय अद्य मम पृष्ठे सुखम् उपविश्य यथेच्छं रक्तं पिबतु अहमत्र शये इति ततः सः हस्तपादोदरीतीन् भूमौ संलग्नान् कृत्वा शयनम् अकरोत् मशकः कच्छपस्य पृष्ठोपरि उपविश्य दन्ता दातुं कर्तुं प्रयत्नम् अकरोत् परं तस्य दन्ताः कच्छपस्य पृष्टं भेतुम् असमर्थाः अभवन् मशकः अचिन्तयत् एतादृशं सुदृढं शरीरं कुत्रापि न दृष्टं कथम् अस्य रक्तं पश्यामि इति तदा कच्छपः भोः मशकभ्रातः किम् अभवत् कथं रक्तं न मम पृष्ठमांसं भेतुम् असमर्थः किं भवान् भवतु मम मुखमांसम् अतीव कोमलम् अधुना अहं मुखम् उद्घाटयामि भवान् मम मुखं प्रविश्य यथेच्छं रक्तं पिबतु इति उक्त्वा स्वमुखं विशालतया उद्घाट्य उत् अतिष्ठत् मशकः अतीवव्यग्रः सन् कच्छपस्य मुखं प्राविशत् कच्छपस् मह्यः सद्यः एव मुखं पिधाय मशकम् उदराभ्यन्तरम् अगमयत् अहङ्कारी मशकः उचितं दण्डनं प्राप्नोत्